कृष्णयजुर्वेदे क्रमपाठे चतुर्थकाण्डे प्रथमः प्रश्नः प्रारम्भः ओञ्जानः प्रथमम् मनः मनस्तत्त्वाय तत्त्वाय सविता सविता धियः धिय इति धियः विज्ञम् ज्योतिः ज्योतिर्निचाय्य निचाय्य पृथिव्याः जाय्येति निचाय्य पृथिव्याधि मनसा देवान् देवान्सुवः सुवर्यतः यतो धिया धिया दिवम् दिवमिति दिवम् बृहज्ज्योतिः ज्योतिः करिष्यतः करिष्यतः सभिता सभिताप्रसुवाति सुवातितान् तानितान् युक्तेन मनसा मनसा वयम् अयम् देवस्य देवस्य सवितुः सवितुः सवे सव इति सवे सुवर्गेयाय शक्यैः सुवर्गेयायेति सुवहा गेयाय शक्त्या इति युञ्जते मनः मनकुत उत चिञ्जते धियः धियो विप्राः विप्रा विप्रस्य विप्रस्य बृहतः बृहतो विपश्चितः विपश्चित इति विपश्चितः विहोत्राः होत्रादधे दे वयनावित् व्यजनाविदेकः वयनाविदिति व्यजुनावित् एकयित् इन्मही महीदेवस्य देवस्य सवितुः सवितुः परिष्टुतिः परिष्टुतिरधिपरिस्तुतिः देवाम् ब्रह्म ब्रह्मपूर्व्यम् पूर्वन्नमोभिः नमोभिर्वि नमोभिरिति नमःभिः विश्लोकाः श्लोकायन्तिर्थ्याः अर्थ्येव इव सूराः सूरा इति सूराः शृण्वन्ति विश्वे विश्वे अमृतस्य अमृतस्य पुत्राः पुत्रा आ आ ये ये दिव्यानि दिव्यानि तस्थुः तस्थुरिति तस्थुः प्रयाणम् प्रयाणमनु प्रयाणमिति प्रायाणम् अन्यैत् यद्ययुः यजुर्देवाः देवादेवस्य देवस्य महिमानम् महिमानमर्चतः अर्चत इत्यर्चतः यः पार्थिवानि पार्थिवानि विममे विममे सह विमम इति विममे स एतशः एतश प्रजागुंसि प्रजागुंसि देवः देवः सविता सविता महित्वना महित्वनेति महित्वला देवसवितः सवितः प्रसुव सुभयज्ञम् यज्ञम् प्रसुव सुभयज्ञपतिम् यज्ञपतिम् भगाय यज्ञपतिमिति यज्ञापतिम् भगाय दिव्यः दिव्यो गन्धर्वः अन्धर्व इति गन्धर्वः केतपोः केतम् केतपोरिति केतापोः केतम्नः नः पुनातु पुनातु वाचः वाचस्पतिः अतिर्वाचम् वाचमद्य अन्यस्वदाति सदातिनः न यतिनः इमम् नः देवायुवकम् सखिविदम् देवायुवमिति देवायुवम् सखिविदगम् सत्राजितम् सखिविदमिति सखिविदम् सत्राजितम् धनजितम् सत्राजितमिति सुवर्जितम् धनजितमिति धनाजितम् सुवर्जितमिति सुभाजितम् रचास्त्वमम् स्तोमघंसम् समर्थय अर्धय गायत्रेण गायत्रेण रथन्तरम् रथन्तरमिति रथम् तरम् बृहद्गायत्र देवस्य त्वा प्रासवितुः सवितुः प्रसवे प्रसवे अश्विनोः प्रसव इति प्रासवे अश्विनोर्बाहुभ्याम् बाहुभ्याम् पूष्णः बाहुभ्यामिति बाहूभ्याम् पोष्णोहस्ताभ्याम् हस्ताभ्याम् हस्ता गायत्वेन आददे तदेङ्गिरस्वद् अङ्गिरस्वदभ्रिः अभ्रिरसि असि <सी> नारिः नारिरसि असि पृथिव्याः पृथिव्याः रथस्थादग्निम् सधस्थादिति सधास्थात् अग्निम् पुरीष्यम् पुरीष्यमङ्गिरस्वत् अङ्गिरस्वदा आभरभरत्रैष्टुभेन त्रैष्टुभेन त्वा त्वा छन्दसा आददे तदेङ्गिरस्वत् अङ्गिरस्वद्बभ्रिः बभ्रिरसि असिनारिः आरिरसि असि त्वया वयम् अजगुम् सधस्थे सधस्था सधस्थ सधास्थे आग्निम् अग्निगुंशकेम शकेम खणिगुम् खणितुम् पुरीष्यम् पुरीष्यम् जागतेन जागतेन त्वा ता छन्दसा छान्दसा आददे तदेङ्गिरस्वद् अङ्गिरस्वद्हस्ते हस्ताधाय आधाय सविता आधायत्या आधाय सविता बिभ्रद् बिभ्रदभ्रिम् अभ्रिगुम् हिरण्यैः हिरण्ययैमिति हिरण्यैः प्रदा ज्योतिः ज्योतिरजस्रम् रजस्रमित् यदग्निम् अग्निम् खात्वी खात्वीनः न आ आभरभरानुष्टुभेन आनुष्टुभेन त्वा आनुष्टुभेनेत्यानौस्तुभेन आच्छन्दसा छन्दसा आददे ददेङ्गिरस्वत् अङ्गिरस्वदित्यङ्गिरस्वत् इमामगृभन् अगृभणन् रशनाम् रशनामिदस्य तस्य पूर्वे पूर्व आयुषि आयुषि विदथेषु विदथेषु कव्या कव्येति कव्या तया देवाः देवास्रुतम् सुतमा आबभूवुः बभूवरुतस्य कृतस्य सामन् सामन् सरम् सरमारपन्ती आरपन्तीत्याहारपन्दी प्रसूर्तम् वाजिन् प्रथूहूर्तमिति प्रादूर्तम् वाजिन्ना आद्रव द्रववलिष्ठाम् वरिष्ठामनु अनुसंवतम् सम्वतमिति संवतम् दिवि ते ते जन्म जन्मपरमम् परममन्तरिक्षे अन्तरिक्षे नाभिः नाभिः पृथिव्याम् पृथिव्यामधि अधियोनिः योनिरितियोनिः यञ्जाथानुम् रासभम् रासभम् इवम् इवमस्मिन् अस्मिन् यामे यामे वृषण्वसू वृषण्सू इति वृषण्वसू अग्निम् भरन्दम् भरन्दमस्मयुम् योगे योगे तपस्तरम् योगे योगैति योगे हे योगे तवस्तरम् वाजे वाजे तवस्तरमिति तवहातरम् वाजे वाजे हवामहे वाजे वाजैति वाजे हे वाजे हवामः इति हवामहे सखाय इन्द्रम् इन्द्रमूतये ऊतयेत्यूतये प्रतोर्वन्ना प्रतोर्वन्निति प्रादोर्वन् एहिक्रामन् अवक्रामन् अशस्तीः अवक्रामन्नित्यक्रामन् अशस्तीरुद्रस्य रुद्रस्य गाणपत्यात् गाणपत्यान्मजोभूः गाणपत्यादिति गाणापत्यात् रजोभूरा रजोभूरिमयहा भूः एहीहि उर्वन्तरिक्षम् अन्तरिक्षमणो अण्विः इः स्वस्तिकव्योतिः स्वस्तिगव्योतिरभयानि स्वस्तिगव्योतिरितिः स्वस्त्यै गव्योतिः अभयानि कृण्वन् क्रण्वन्निति कृण्वन् कृष्णासयुजाः सयुजा सः सयुजेति सायुजाः सहेति सः पृथिव्याः सधस्थात् सधस्थादग्निम् सधस्थादिति सधास्थात् अग्निम्बुरेष्यम् पुरेष्यमङ्गिरस्वद् अङ्गिरस्वदच्छ अच्छेः इह्यग्निम् अग्निम्बुरेष्यम् पुरिष्यमङ्गिरस्वद् अङ्गिरस्वदच्च अच्छेमह इमोऽम् अग्निम्भुरीष्यम् पुरिष्यमङ्गिरस्वद् अङ्गिरस्वद्भरिष्यामः भरिष्यामोऽग्निम् अग्निम्भुरीष्यम् पुरिष्यमङ्गिरस्वद् अङ्गिरस्वद्भरामः भराम इति भरामः अन्वग्निः अग्निरुषसाम् ऋषसामग्रम् अग्रमख्यद् अक्ष्यदनु अन्वहानि अहानिप्रथमः प्रथमो जातवेदाः जातवेदा इति जाता वेदाः अनुसूर्यस्य सूर्यस्य पुरुत्रा पुरुत्रा च पुरुत्रेति पुरुत्रा चरश्मीन् रश्मीननु अनुद्यावापृथिवी द्यावापृथिवी आ द्यावापृथिवी इति द्यावापृथिवी आततान तदानेति तदान आलत्यवाची आलत्येत्या आलत्य वाज्युर्ध्वनः अध्वनः सर्वाः सर्वामृथः मृधो विधूनुते धूनुत इति धूनुते अन्यकम् सधस्थेः सधस्थे महति सधस्थ इति सधास्थेः अहति चक्षुषा चक्षुषानि चिकीषते चिकीषत इति चिकीषते आक्रम्य वाजिन् आक्रम्येत्याक्रम्य वाजिन् पृथिवीम् पृथिवीमग्निम् इच्छरुजा रुजा त्वम् त्वमिति त्वम् भूम्या मृत्वाय मृत्वायनः खनाम खनामतम् तम् वयम् वयमिति भयम् द्यौस्ते ते पृष्ठम् पृष्ठम् पृथिवी पृथिवी सधस्थम् सधस्थमात्मा सधस्थमिति सधास्थम् आत्मान्तरिक्षम् अन्तरिक्षकम् समुद्रः समुद्रस्ते ते योनिः योनिरितियोनिः वीक्षाय चक्षुषा वीक्ष्याय इति वीक्षाय चक्षुषा त्वम् त्वमभि अभितिष्ठ तिष्ठपृतन्यतः प्रतन्यत इति प्रतन्यतः उत्क्राम अहते सौभराय सौभरायास्मात् अस्मादास्थानात् आस्थानाद्रविणोदाः आस्थानादित्या आस्थानात् द्रविणोदावाजिन् द्रविणोदादि द्रविणोदाः वाजिन्निति वाजिन् वयद्गस्याम स्याम सुमतौ सुमतौ पृथिव्याः सुमताविति सुमतौ पृथिव्या अग्निम् अग्निम् खनिष्यन्तः खनिष्यन्त उपस्थेः अस्या इत्यस्याः रुदक्रमेद् तक्रमेद् द्रुविणोदाः द्रुविणोदा वाची द्रुविणोदा इति द्रविणहदाः वाज्यर्वा अर्वाकः अकः सः स लोकम् लोककम् सुकृतम् इति पृथिव्याः ततः खनेम खलेम सुप्रतीकम् सुप्रतीकमग्निम् सुप्रतीकमिदसुप्रतीकम् अग्निकम् सुवः सुवृहाणाः रुहाणा अधि अधिनाकेः नाक उत्तमे उत्तम इत्युक्तमे नवो देवीः देवीरुप उपसृज सृज मधुमतीः मधुमतीरलक्ष्माय मधुमतीर्जिमधुमतीः अलक्ष्माय प्रजाभ्यः प्रजाभ्यैरिप्राजाभ्यः तासादिस्थानात् स्थानात् उज्जिहताम् जिहतामौषधयः ओषधयः सुविप्लाः सुविप्पला इति सुविप्पलाः जिहर्मिग्निम् अग्निम् मनसा मनसा घृतेन घृतेन प्रतिक्ष्यन्तम् प्रतिक्ष्यन्तम् भुवनानि प्रतीक्षन्दमिति प्रतीक्ष्यन्दम् भुवनानि विश्वाः विश्वेति विश्वाः पृथन्दिरश्चा तिरश्चावयसा ययसा वृहन्दम् पृथन्तम् यतिष्ठम् यतिष्ठमन्नम् विदानमिति विधानम् आ त्वादिघर्मि वचसा वचसा घृतेन घृतेना रक्षसा रक्षसा मनसा मनसा तत् कृषस्वेति कृषस्व वर्यश्रीस्पृहयद्वर्णः वर्यश्रीरितिभर्याश्रीः स्पृहयद्वर्णो अग्निः स्पृहयद्वर्ण इति स्पृहयते वर्णः अग्निर्न नाभिमृषे अभिमृषे तनुवा अभिमृष इत्यभिमृषे तनुवा जलहृषाणः जलहृषाण इति जलहृषाणः परिवाजपदिः वाजपदिः कविः वाजपतिरितिवाजाकविः कविरग्निः अग्निर्हव्यानि हव्यान्यक्रमीर् अक्रमेरित्यक्रमीर् तद्वृत्तानि दत्तानि दाशुषे दाशुष इति दाशुषे परित्वा त्वाग्नेः अग्ने पुरम् पुरम् वयम् वयम् विप्रम् विप्रकम् सहस्य सहस्य धीमहि धीमहि इति धीमहि त्रिषद्वर्णम् दिवेदिवे त्रिषद्वर्णमिति झिषते वर्णम् दिवेदिवे भेत्तारम् दिवेदिवै इति दिवे दिवेदि भेत्तारम् भङ्गुरावतः भङ्गुरावत त्वमाशु शुक्षणिः आशुशुक्षणिस्त्वम् त्वमद्भ्यः अभ्यस्त्वम् अभ्यैत्येदभ्यः त्वमश्मनः अश्मनःस्परि परीति परि त्वम् वने एभ्यः वने एभ्यस्त्वम् त्वमोषधीभ्यः ओषधीभ्यस्त्वम् ओषधीभ्यैत्योषधीभ्यः त्वम् धृणाम् धृणान् द्रपदे नृपते जायसे नृपत इति गृपतेः जायसे शुचिः शुचिरिति शुचिः देवस्य त्वा प्रसवेति प्रासवे अश्विनोर्बाहुभ्याम् बाहुभ्याम् पूष्णः बाहुभ्यामिति बाहूभ्याम् ऊष्णो हस्ताभ्याम् हस्ताभ्याम् पृथिव्याः पृथिव्याः सधस्थे सधस्थेऽग्निम् सधस्थ इति सधास्थे अग्निम् पुरेष्यम् पुरेष्यमङ्गिरस्वत् अङ्गिरस्वत्खनामि खनामीति खनामि ज्योतिष्पन्दन्त्वा त्वा त्वा त्वा त्वाग्नेः अग्नेः सुप्रतीकम् सुप्रतीकमजस्रेण सुप्रतीकमिति सुप्रतीकम् अजस्रेण भानुनाः भानुनादीद्यानम् दीद्यानमिदीद्यानम् शिवम् प्रजाभ्यः प्रजाभ्योऽगुम्सन्दम् प्रजाभ्यैरि प्राजाभ्यः अहिगुम्सन्दम् पृथिव्याः पृथिव्याः सधस्थेः सधस्थेऽग्निम् सधस्थ इति सधास्थेः अग्निम् पुरेष्यम् पुरेष्यमङ्गिरस्वत् अङ्गिरस्वत्खनामि खनामीति खनामि अपाम् पृष्ठम् पृष्ठपसि सप्रथाः सप्रथा उरु सप्रथा इति सा प्रथाः उर्वग्निम् अग्निम्भरिष्यद्भरिष्यदपरावपिष्ठम् अपरावृष्ठमित्यपरावपिष्ठम् वर्धमानम् महः महा आचुष्करम् पुष्करम् दिवः दिवो मात्रया मात्रया वरिणा वृणाप्रथस्व प्रथस्वेति प्रथस्व शर्म च तस्थः स्थो कर्म कर्म च्छिद्रे बहुले अच्छिद्रे इत्यच्छिद्रे बहुले उभे बहुले इति बहुले उभे इजुभे यचस्वती सम् यजस्वती इति व्यजस्वती संवसाथा असाथाम् भर्तम् भर्तमग्निम् अग्निम् पुरीष्यम् पुरीष्यमिति पुरीष्यम् संवसाथा असाथाकम् सुवर्विदा सुर्विदा समीची सुर्विदेति समीची उरसा समीचीरि समीची उरसात्मनाः मनेर्युत्मनाः अग्निमन्तः अन्तर्भरिष्यन्तीः भरिष्यन्ति ज्योतिष्मन्तम् भरिष्यन्तीर्भरिष्यन्ती ज्योतिष्मन्तमजस्रम् रजस्रमित् इदीत् प्रीष्योऽसि अधिविश्वभराः विश्वभरा इति विश्वाभराः अथर्वा त्वाप्रथमः प्रथमोनिः निरमन्थत् अमन्थदग्नेः अग्न इत्यग्ने त्वामग्ने अग्ने पुष्करात् पुष्करादधि अध्यथर्वा अथर्वाणिः निरमन्थता अमन्थतेत्यमन्थता मूर्ध्मविश्वस्य विश्वस्य वाघतः वाघत इति वाघतः तमो रुत्वाह त्वा ऋषिः ऋषिः पुत्रः ईधे ईधे अथर्वणः अथर्वण इत्यथर्वणः वृत्रहणम् पुरन्दरम् वृत्रहणमिति वृत्राहनम् पुरन्दरमिति पुरन्दरनम् तमो कृत्वाह त्वापाथ्यः पाथ्यो वृषाः समीधे ईधे दस्य तस्य सन्तममिति तस्यो सन्तमम् धनञ्जयकम् रणेरणे धनञ्जयमिति धनम् धनम् रणे रण इति रणे रणे सीदहोतः होतस्वे स्व लोके विधास्यग्नेः अग्ने बृहद् ब्रहत, बृहद्यजमाने यजमाने वयः वयोधाः धायिधाः विहोताः होता होदृसदने हो होदृशदने विदानः होदृशदन इति होदृसदने विधानस्त्वेषः त्वेषो दिदिवान् दिदिवागुम् असदत् असदत्सुदक्षः सुदक्ष इति सोदक्षः अदब्धव्रतप्रमतिर्वसिष्ठः अदब्धव्रतप्रमतिरित्यदब्धव्रता प्रमतिः अतिष्ठः सहस्रम् भरः सहस्रम्भरः शुचिजिह्ः सहस्रम् भर इति सहस्रम् भरः शुचिजिह्वो अग्निः शुचिजिह्वैल शुचिजिह्वः अग्निरित्यग्निः सीदस्वशीलस्वमहा महांहसि असि शोचस्व शोचस्वदेववीतमः देववीतमैति देववीतमः विधूमम् धूममग्ने अग्ने अरुषम् अरुषम् नियेध्य नियेध्य सृज सृजप्रशस्त प्रशस्तेति प्राशस्ता दर्शतमिति दर्शतम् जनिष्वाहि हि जयन्यः जयन्यो अग्रे अग्रे अह्नाम् अह्नागम् हितः हितो हितेषु हितेष्वरुषः अरुषो वनेषु वनेष्विजिवनेषु दमे दमे सप्त दमे दमेदमे दमे सप्तरत्नाः रत्नादधानः दधानोऽग्निः अनग्निर्होताः होतानि निशसाद ससादा यजीयान् यजीयानिति यजीयान् सन्तेः ते वायुम् मातरिश्वा मातरिश्वा दधातु दधातुनायैः उत्तानायै हृदयम् उत्तानाय इत्युत् तानायै हृदयम् यत् यद्विलिष्टम् विलिष्टमिति विलिष्टम् देवानाङ्ग्यः यश्चरति तस्मै प्राणथेनेति तस्मै च सदैवी देवि ऋषड् अस्तु तुभ्यम् तुभ्यमिति तुभ्यम् सुजातो ज्योतिषा सुजात इति सुजातः ज्योतिषा सह सह शर्म शर्मवरोथम् वरोथमा आसदः असदः सुवरिति सुवः वासो अग्ने अग्ने विश्वरूपम् विश्वरूपमिति विश्वारूपम् संव्ययस्व यस्व विभावसो विभावसो इति विभावसो उदो उतिष्ठ तिष्ठस्वद्धर स्वधराव स्वद्भरेति सुर्धर अमानः नो देव्या देव्या कृपा कृपेति कृपा दृशे च च भासा भासा बृहता बृहता सु शुक्वनिः सुषक्वनिरा सुषक्वनिलिसुशुक्वनिः आग्ने अग्नेयाहि या हि सुशस्तिभिः सुशस्तिभिलिसुषस्तिभिः ऊर्ध्वौ ऊषृणः सुनः ऊतये ऊतये तिष्ठ तिष्ठा देवः देवोना न न सवितेति सविता ऊर्ध्वो वाजस्य वाजस्य सनिता सनिता यत् यदञ्जिभिः अञ्जिभिर्वाघद्भिः अञ्जभिरित्यञ्जीभिः वाघद्भिर्विह्वयामहे वाघद्भिरिति वाघद्भिः विह्वयामः इति वीह्वयामहे स जातो गर्भः गर्भो असि असि रोदस्योः रोदस्योरग्नेः अग्ने चारुः चारुर्विभृतः विभृत ओषधीषु विभृत इति शिशुः परि परितमागंसि तमागस्यक्तः अक्तः प्रमातृभ्यः मातृभ्यो अधि मातृभ्य इति मातृभ्यः अधिकनिक्रदत् कनिकृदद्गाः गा इति गाः स्थिरो भव वेद्भङ्गः वेद्भङ्ग आशुः वेद्भङ्ग इति वीडुवङ्गः आशुर्भव भव वाजी वाज्यर्वन् अर्वन्नित्यर्वन् प्रसुर्भव भव सुषदः त्वमग्नेः अग्नेः पुरीषवाहनः पुरीषवाहन इति पुरीषावाहनः शिवो भव नव प्रजाभ्यः प्रजाभ्यो मानुषीभ्यः प्रजाभ्य इति प्राजाभ्यः मानुषेभ्यस्त्वम् त्वमङ्गिरः अङ्गिर इत्यङ्गिरः मा द्यावापृथिवी द्यावापृथिवी अभि द्यावापृथिवीरि द्यावापृथिवी अभिशूषुचः शूषुचो मान्तरिक्षम् अन्तरिक्षम् मा मा वनस्पतीन् नस्पतीनितिव नस्पतीन् प्रैतु हेतु वाजी वाजी कनिक्रदत् कनिक्रदन्नानदत् नानद्रासभः रासभः भा, पत्त्वा पत्त्वेति पत्त्वा भरन्नग्निम् अग्निम् पुरीष्यम् पुरीष्यम् मा, रासभोवा वाङ्कनिक्रदत् कनिक्रदत् सुयुक्तो वृषणा सुयुक्त इति सो रथ इति रथे स वाम् वामग्निम् अग्निम् पुरेष्यम् प्रेष्यमाशुः आशुर्दूतः दूतोपहात् वहादितः इत इति इतः वृषाग्निम् अग्निम् वृषणम् वृषणम् भरन् भरन्नपाम् अपाम् गर्भम् गर्भपम् समुद्रियम् समुद्रियमिति समुद्रियम् अग्ना याहि वीतये एतज ऋतम् ऋतकम् सत्यम् सत्यमिति सत्यम् ओषधयः प्रति प्रतिगृह्णीत गृह्णीताग्निम् अग्निमेतम् एतगम् शिवम् शिवमाजन्तम् आजन्तमभि आजन्तमित्याहायन्तम् अभ्यत्र अत्र युष्मान् युष्मान्ति युष्मान् यस्यन्विश्वाह यस्यन्नितिभि अस्यन् विश्वा अमतीः अमतीरराचीः रातेर्निषीदन् निषीदन्नः निषीदन्निति निसीदन् अप अपदुर्मतिम् दुर्मदिगम्हनत् दुर्मतिमिति दुहो मतिम् हनदिति हनत् ओषधयः प्रति प्रतिमोदध्वम् मोदध्वेनम् एनम् पुष्पावतीः पुष्पावतीः सुपिपलाः पुष्पावतीरिति पुष्पावतीः सुपिप्पला इति सो पिप्पलाः अयम्बः ओ गर्भः गर्भर्त्वियः ऋत्वियः प्रत्नम् प्रत्नगम् सधस्थम् सधस्थमा सधस्थमिति सुधास्थम् आसदत् असददित्यसदत् पिपाचसा पाचसा पृथुनाः पृथुना शोषुचानः शोषुचानो बाधस्व बाधस्वद्विषः द्विषो रक्षसः रक्षसो अमीवाः अमीवा इत्यमीवाः सुशर्मणो बृहदः सुशर्मण इति सोषशर्मणः बृहदः शर्मणि शर्मणि स्याम् स्यामग्नेः अग्नेरहम् अहकम् सुहवस्य सुहवस्य प्रणीतौ सुहवस्येति सुहवस्य प्रणीताविति प्राणीतौ आपो हि ईष्ठ स्थामयोभुवः अयोभुवस्ताः अयोभुव इति मयः भुवः कालः न ऊर्जे ऊर्जे दधातन दधातनेति दधातन महेरणाय रणाय चक्षसे चक्षस इति चक्षसे यो वः वः शिवतमः शिवतमो रसः शिवातमः प्रसस्तस्य तस्य भाजेत राजयतेह इह नः न इति मातरः इति मातरः तस्मानम् अनङ्गमाम गमामवः ओ यस्य यस्य क्षयाय क्षयाय जिन्वथ जिन्वथेति जिन्वथ आपो जनयथ जनयथा च नः न यदिनः यत्रः सघंसृज्य सघंसृज्य पृथिवीम् सघंसृज्येति संसृज्य पृथिवीम् भूमिम् ज्योतिषा सह सहेति सह सुजातम् जातवेदसम् सुजातमिति सुजातम् जातवेदसमग्निम् जातवेदसमिति जाताभेदसम् अग्म् वै ईश्वादरम् वै ईश्वादरम् ऋघुम् रिघुमिति दिभुं दिभुं विभुम् लक्ष्मायत्वासम् सगुंसृजामि सृजामि प्रजाभ्यः प्रजाभ्यैरि प्राजाभ्यः विश्वे यत्त्वा त्वादेवाः देवा वै ईश्वादराः ईश्वादराः सम् सगुंसृजन्तु सृजन्त्वानुष्टुभेन आनुष्टुभेन छन्दसा आनुष्टुभेनेत्यानोऽस्तुभेन छन्दसाङ्गिरस्वल् अङ्गिरस्वदित्यङ्गिरस्वद् रुद्राः संहृत्य संहृत्य पृथिवीम् संहृत्येति संभृत्य पृथिवीम् बृहत् बृहज्ज्योतिः ज्योतिः सम् समीधिरे ईधिर इदीधिरे तेषाम् भानुः भालुरजस्रः इच्छुक्रः शुक्रो देवेषु देवेषु रोचते रोचत इति रोचते सकंसृष्टाम् वसुभिः सगम्सृष्टामिति संसृष्टाम् वसुभिरुद्रैः वसुभिरिति वसुभिः रुद्रैर्धीरैः धीरैः कर्मण्याम् कर्मण्यामृतम् मृदमिह मृतम् हस्ताभ्याम् ऋद्वीम् ऋद्वीम् कृत्वा कृत्वा सिनीवाली सिनीवालीकरोतु करोतु ताम् तामदिताम् सिनीवाली सुखपर्दा सुखपर्दा सुकुरीला सुखपर्देति सुकपर्दा सुकुरीलास्वौपशा सुकुरीरेऽति सु औपशा सा तुभ्यम् तुभ्यमदिते अदितेमहे माहा ओखा तथा तु हस्तयोः हस्तयोरिटिहस्तयोः उकाम् करोतु करोतु शक्या शक्त्या बाहुभ्याम् बाहुभ्यामनिः बाहुभ्यामिति बाहूभ्याम् अतिर्धिया धियेति धिया माता पुत्रम् पुत्रम् यथा यथोपस्थेः उपस्थे सा उपस्थैतिवास्थे सा अग्निम् अग्निम् विभर्तु बिभर्तुगर्भे गर्भा एत्या मघस्य शिरः शिरोऽसि अति यज्ञस्य यज्ञस्य पदे पदे स्थः पदे इति पदे स्थ इति स्थः असवस्त्वा त्वा गृह्ण्वन्तु कृण्वन्तु गायत्रेण गायत्रेण छन्दसा छन्दसाङ्गिरस्वत् अङ्गिरस्वत्पृथिवी पृथिव्यसि असि रुद्राः रुद्रास्त्वाः त्वा कृण्वन्तु कृण्वन्तु त्रैष्टुभेन त्रैष्टुभेन छन्दसा अस्यादित्याः आदित्यास्त्वाः त्वागृण्वन्तु कृण्वन्तु जागतेन जागतेन छन्दसा छन्दसाङ्गिरस्वर् अङ्गिरस्वद्यौ द्यौरसि रसि विश्वे विश्वे त्वा देवाः देवा वयीश्वानराः देवा ईश्वानराः कृण्वन्तु कृण्वन्त्वानुष्टुभेन आनुष्टुभेन छन्दसा अनुष्टुभेनेत्यानौस्तुभेन छन्दसाङ्गिरसु अङ्गिरस्वद्दिशः दिशोऽसि ध्रुवा ध्रुवासि असि धारय धारया प्रजामिति प्राजा रायस्पोषम् पोषम् गौपत्यम् गौपत्यकम् सुवीर्यम् सुवीर्यकम् स जातान् सुवीर्यमिति सुवीर्यम् स जातान् यजमानाय सुजातानिति रास्नासि अस्यदितिः अदितिस्थे रेबिलम् लम् गृह्णातु गृह्णातु पाङ्केन पाङ्केन छन्दसा कृत्वा य सा महीम् महीमुखा मुखाम् नर्मयीम् नर्मयी योनिम् नर्मदीमिति मृदमयीम् योनिमग्नयेः अग्न इत्यग्नयेः ताम् पुत्रेभ्यः पुत्रेभ्यः सम् सम्प्रायच्छत् अयच्छददितिः अदिति श्रपयानिति इतीति असवस्त्वा त्वा धूपयन्तु धूपयन्तु गायत्रेण गायत्रेण अङ्गिरस्वद् रुद्राः रुद्रास्त्वाः त्वाधूपयन्तु धूपयन्तु त्रैष्टुभेन त्रैष्टुभेन छन्दसा छन्दसाङ्गिरस्वद् अङ्गिरस्वदादित्याः आदित्यास्त्वाः त्वाधूपयन्तु धूपयन्तु जाकटेन प्राकटेन छन्दसा छन्दसाङ्गिरस्वद् अङ्गिरस्वद्विश्वे विश्वे त्वा त्वादेवाः देवा वैश्वानराः वैश्वानराधूपयन्तु अनुष्टुभेन छन्दसा आनुष्टुभेनेत्यानौस्तुभेन छन्दसाङ्गिरस्वद् अङ्गिरस्वदिन्द्रः इन्द्रस्वा त्वाधूपयतु धूपयत्वङ्गिरस्वद् अङ्गिरस्वद्विष्णुः विष्णुस्त्वा त्वाधूपयतु धूपयत्वङ्गिरस्वद् अङ्गिरस्वद्वरुणः वरुणस्त्वा त्वाधूपयतु धूपयत्वङ्गिरस्वद् अङ्गिरस्वदलितिः अलितिस्त्वा त्वादेवी देवी विश्वदेयव्यावती विश्वदेयव्यावती पृथिव्याः विश्वदेयव्यावतीति विश्वदेयव्यावती पृथिव्याः सधस्थेः सधस्थेङ्गिरस्वत् सधस्थ इति सधास्थेः अङ्गिरस्वत्खनतु खनत्ववट अवट देवानाम् देवानाम् त्वापत्नीः पत्नीर्देवीः देवीर्विश्वरे व्यावतीः विश्वले व्यावतीः पृथिव्याः विश्वले व्यावतीरि विश्वले व्यावतीः पृथिव्याः सधास्थे अङ्गिरस्वद्दधतु दधदुःखे मुखे धिषणाः धषणा स्वा त्वादेवीः देवीर्विश्वदेव्यावतीः विश्वदेव्यावती पृथिव्याः विश्वदे व्यावतीरिति विश्वदेयव्यावतीः पृथिव्याः सधस्थे तधस्थे अङ्गिरस्वत् सधस्थरि सधास्थे अङ्गिरस्वदभि अभि इन्धनाम् इन्धनामुखे मुखे घ्नाः नास्त्वा त्वादेवीः देवीर्विश्वदेव्यावतीः विश्वदेव्यावती पृथिव्याः विश्वदेयव्यावतीरिति विश्वदेयव्यावतीः पृथिव्याः सधस्थे सधस्थे अङ्गिरस्वत् सधस्थ इति सधास्थे अङ्गिरः स्वच्छ्रपयन्तु श्रपयन्तु मुखे मुखे वरोहोत्रयः वरोहोत्रयोजनयः विनयस्त्वा त्वा देवीः देवीर्विश्वदेये दे व्यावतीः दे विश्वदेयव्यावतीः पृथिव्याः विश्वदेयव्यावतीरिति विश्वदेयव्यावतीः पृथिव्याः सधस्थेः सधस्थे अङ्गिरस्वत् सधस्थे सधस्थ इति सधास्थेः अङ्गिरस्वत्पचन्तौ पचन्तूखे मुख इत्युखे मित्रैताम् एतामुखाम् मुखाम् पच पचैषा एषा भेदीति भेदि भेदी, एतान्ते ते परि परि ददामि अभित्या इत्यभित्यै अभीमाम् इमाम् महिना अहिनादिमम् इवम् मित्रः मित्रो बभूव बभूव सप्रथाः सप्रथा इति सा प्रथाः उतश्रवसा श्रवसा पृथिवीम् पृथिवीमिति पृथिवीम् मित्रस्य चर्षणी धृतः चर्षणे धृतश्रवः चर्षणे धृत इति चर्षणे धृतः श्रवो देवस्य देवस्य सा नसिम् सा नसिमिति सा नसिम् व्युम्नम् चित्रश्रवस्तमम् चित्रश्रवस्तममिति चित्रश्रवः सविता सवितो उद्बपतु बपतु सुपाणिः सुपाणिस्वङ्गुरिः सुपाणिरिचिसोपाणिः स्वङ्गुरिचिसो अङ्गुरिः सुबाहुरुता सुबाहुरिचिसो बाहुः उत शक्याः शक्त्यशक्त्याः अपद्यमाना पृथिवी पृथिव्याशा आशादिशः दिशाः आप्रण प्रणेति प्रण उत्तिष्ठ तिष्ठबृहती बृहती भव भवोर्ध्वा ऊर्ध्वा तिष्ठ तिष्ठध्रुवा ध्रुवा त्वम् त्वा आच्छ्रन्दन्तु छन्दन्तु गायत्रेण आरुत्रेण छन्दसा छन्दसा रुद्रात् अङ्गिरस्वद्ुद्राः रुद्रास्त्वाः त्वा आच्छन्दन्तु छन्दम् तु त्रैष्टुभेन त्रैष्टुभेन छन्दसा छन्दसाङ्गिरस्वत् अङ्गिरस्वदादित्याः आदित्यास्त्वाः त्वा आच्छन्दन्तु छन्दम् तु जागतेन आच्छ्रन्दन्तु छन्दन्त्वानुष्टुभेन आनुष्टुभेन छन्दसा आनुष्टुभेनेत्यानोऽस्तुभेन छन्दसाङ्गिरस्वत् अङ्गिरस्वदित्यङ्गिरस्वत् समास्त्वा अग्नऋतवः ऋतवो वर्धयन्तु वर्धयन्तु संवत्सराः संवत्सरा ऋषयः संवत्सरा इति संवत्सराः ऋषयो यानि यानि सत्या सत्येति सत्या सन्दिव्येन दिव्येन दीदिः दीदिः रोचनेन विश्वाः विश्वाः आभाहि भाहि प्रदिशः प्रतिशः पृथिव्याः प्रतिशैः प्रादिशः पृथिव्या इति पृथिव्याः सञ्च येध्यस्व यद्ध्यस्वाग्ने अग्ने प्र च च बोधय बोधयिनम् येनमुत् उच्च प्रतिष्ठ तिष्ठमहरे महते सौभगाय सौभगायेति सौभगाय मा च ईषत् ईषदुपसत्ता उपसर्पादेः उपसत्तेऽतिपासत्ता ते रग्ने ब्रह्माणः ब्रह्माणस्ते ते यशसः यशसः सन्तु सन्तु मा वा अन्ये अन्य इत्यन्ये त्वामग्ने अग्ने वृणते वृणते ब्राह्मणाः ब्राह्मणा इमे इमे शिवः शिवो गणध्मे रग्ने संवरणे संवरणे भव संवरण इति संवरणे भवानः न इति नः सपत्नहा नः अभिमातिजिच्च अभिमातिजिदित्यभिमातिजित् सस्वे स्वेगजेः रे जागृहि जागृह्यप्रयच्छन् अप्रयुच्छन्नित्यप्रायच्छन् इहैव एवाग्नेः अग्ने अधि अधिधारया धारया रयिम् रयिम् मा त्वा त्वानि निक्रन् कन्पूर्वचितः पूर्वचित इति पूर्वाचितः निकारिण इति निकारिणः क्षत्रमग्ने अग्ने सुयमम् सुयमस्तु सुयम इति अस्तु तुभ्यम् तुभ्यमुपसत्ता उपसत्तावर्धताम् उपसत्तेत्युपसत्ता वर्धताम् ते ते अनिष्कृतः अनिष्टत इत्यनिष्कृतः क्षत्रेण आग्ने अग्ने स्वायुः स्वायुः सन् स्वायुरिति स आयुः स्वाय। स गम् अग्ने मित्रधेयेः मित्रधेये यतस्व मित्रधेयेति मित्राधेयेः यतस्वेति यतस्व सुजातानाम् मध्यमस्थाः सुजातानामिति सा जातानाम् मध्यमस्थायेधि मध्यमस्थाति मध्यमास्थाः एधिराज्ञाम् राज्ञामग्ने अग्ने विहव्यः विहव्यो दीदिः विहव्य इति विहव्यः दीदिहिह इहे दिह अतिनिहः अति अतिस्रिधः सृजोति अत्यचित्तिम् अचित्तिमति अत्यरातिम् अरातिमग्ने अर्णैत्यग्ने विश्वाहि त्यग्ने अर्णे दुरिता दुरिता सहस्व दुरितेति दुहोरिता सहस्वाथ अथास्मभ्यम् अस्मभ्यगुम् सहवीराम् अस्मभ्यमित्यस्माभ्यम् सह वीरागुम् रयिम् सहवीरामिति सह वीराम् रयिन्दाः दा इति दाः दातवेदा अनिष्ट्रुतः दातवेदा इति दातावेदाः अनिष्टुतो विराड् विराडग्ने विराडिति वीलाड् अग्ने क्षत्रभृत् क्षत्रभृद्दीदिः क्षत्रभृदिति क्षत्राभृत् दीदिभिह दी दी दी इहेजीह आशाः आशा प्रवञ्चन् प्रवञ्चन्मानुषीः प्रवञ्चन्निति प्रवञ्चन् मानुषीर्भ्यः भियः शिवाभिः शिवाभिरद्य अद्यपरि परिपाहि पाहि नः मम ृथ इति वृधे गृहस्पते सवितः सपितर्बोधय बोधयीनम् एलगुंसकुंषितम् सगुंसितञ्चित् सगुंषितमिति संसितम् चित्सन्तराम् सन्तरागुंसम् सन्तरामिति सन्तराम् सगं शिशाधि शिशाधीति शिशाधि वर्धयीनम् एनम् महते सहते सौभगाय सौभगाय विश्वे विश्व एनम् एनमनु अनुमदन्तो देवाः देवा इति देवाः अमत्र भूयादथ अमुत्रभूयादित्यमत्रा भूयात् अधयत् यद्यमस्य यमस्य बृहस्पते बृहस्पते अभिषष्टेः अभिषस्तेरमुञ्चः अभिषस्तेरित्यभिषष्टेः अमुञ्च इत्यमुञ्चः प्रत्यौहताम् औहतामश्विनाः अश्विना मृत्युम् मृत्युमस्मात् अस्माद्देवानाम् देवानामग्ने अग्नेभिषजाः भिषजा शचीभिः शचीभिरितिशचीभिः उद्वयम् वयम् तपसः तमसस्परि परिपश्यन्तः पश्यन्तो ज्योतिः ज्योतिरुत्तरम् उत्तरमित्युदोत्तरम् एवम् देवत्रा देवत्रा सूर्यम् देवत्रेति देवात्रा सूर्यमगन्म अगन्म ज्योतिः ज्योतिरुत्तमम् उत्तममित्युतोत्तमम् ऊर्ध्वा अस्य अस्य समिधः समिधो भवन्ति समिधैर्सां भवन्त्यूर्ध्वा ऊर्ध्वा शुक्रा शुक्रा शोचीगुंषि शोचीविष्यज्ञेः अग्नेरित्यग्नेः युमत्तमा सुप्रतीकस्य युमत्तमेति द्युमत् तमाः सुप्रतीकस्य सूनोः सुप्रतीकस्येति सुप्रतीकस्य सूनोरिति सूनोः तनूनपादसुरः तनूनपादितनूनपात् असुरो विश्ववेदाः विश्ववेदा देवः विश्ववेदा इति देवो देवेषु देवेषु देवः देव देवः पथा आनक्ति अनक्तिमध्वा मध्वा घृतेन मध्वा यज्ञम् यज्ञम् नक्षसे नक्षसे त्रीणानः प्रीडानो नराशगुंसः न राशगुंसोऽर्ग्ने अग्न इत्यज्ञे सुहृद्देवः सुहृदिति सुहृत् देवः सविता सुकृत, सविता विश्ववारः विश्ववार इति विश्वारः अयमेति एति शवसा शवसा घृतेन धृतेने ईडानो वह्निः नमसेति नमसा, नमसे नमसा अग्निग्सृजः सृजो अध्वरेषु प्रयत्सु प्रयत्स्विति प्रयत्सु स यक्षत् यक्षतस्य अस्य महिमानम् महिमानमग्नेः अग्नेः सह स ईम् इमन्द्रासु मन्द्रासु प्रयसः प्रयस वसुधातमः वसुधातमश्च वसुधातम वसुधातमः चेति च द्वारो देवीः देवीरनु अन्वस्य अस्य विश्वे विश्वे व्रता व्रता ददन्ते ददन्ते अग्नेः अग्नेरित्यग्नेः उव्यचोधाम्ना ब्रुव्यचैत्यो च सह धाम्ना पत्यमानाः पत्यमाना इति ते अस्य ते इति योषणे दिव्ये योषणे इति योषणे दिव्येन दिव्ये इति दिव्ये योनौ योना विषासानक्ताः विषा सानक्तेत्युषा सानक्ताः इमम् यज्ञम् यज्ञमवताम् अवतामध्वरम् देव्या होतारौ होतारावूर्ध्वम् ऊर्ध्वमध्वरम् अध्वरन्नः नोग्नेः अग्नेर्जिह्वाम् जिह्वामभि अभिगृणीतम् गृणीतमिति गृणीतम् कृणोदन्नः न सृष्टिम् सृष्टिमिति सूष्टिम् तिस्रो देवीः देवीर्बर्हि बर्हिरा एदम् इदगुंसदन्तु सदन्त्विडाः इडा सरस्वती सरस्वती भारती भारतीति भारती महीकृणाना कृणानेति गृणाना तन्नः कस्तुरीपम् सुरीपमद्भुतम् अद्भुतम् रुक्षो रुक्षपृष्टाः पृष्टा सुवीरम् सुवीरमिति सोवीरम् राजस्पोषम् पोषम् वि पृष्यतु अस्मे, अस्मे इत्यस्मे वनस्पतेव अवसृज सृजारराणः रराणस्मनाः स्मना देवेषु देवेष्विति अग्निर्हव्यम् हव्यगम् शमिता शमिता सूदयाति सूदयातीति सूचयाति अग्ने स्वाहा स्वाहा जातवेद इन्द्राय जातवेद इति जातावेदः इन्द्राय हव्यम् हव्यमिति विश्वे देवाः देवाहविः हविरिदम् इदम् द्विषन्ता द्विषन्तामिति द्विषन्ता हिरण्यगर्भः सम् हिरण्यगर्भ इति हिरण्यागर्भः समवर्तता अग्रे भूतस्य भूतस्य जातः जातः प्रतिः प्रतिरेकः एक आसीत् आसीदित्यासीत् सदाधार आधारपृथिवीम् पृथिवीन्याम् ग्यामुत उतेमाम् इमाम् कस्मै कस्मै देवाय देवाय हविषा हविषा विधेम विधेमेति विधेम यः प्राणतः प्राणतो निविशतः प्राणत इति प्राणतः निविशतो महित्वा निविशत इति निविशतः महित्वैकः महित्वेति एकैत् इद्राजा राजा जगतः जगतो बभूव बभूवेति बभूव य ईशे ईशे अस्य अस्य द्विपदः जगपदश्चतुष्पदः द्विपद इति द्विपदः चतुष्पदः कस्मै चतुष्पद इति चतुःपदः कस्मै देवाय देवाय हविषाः हविषा विधेमेति विधेम य आत्मदाः आत्मदा बलदाः आत्मदा इत्यात्मादाः बलदायस्य बलदा इति यस्य विश्वेः विश्व उपासते उपासते प्रशिषम् उपासत इत्युपासते प्रशिषञ्यस्य प्रशिषमिति प्राशिषम् यस्य देवाः देवा इति छाया छायामृतम् अमृतञस्य यस्य मृत्युः मृत्युः कस्मै कस्मै देवाय देवाय हविषा हविषा विधेम विधेमेति विधेम इमे हिमवन्तः हिमवन्तो महित्वा हिमवन्त इति हिमावन्तः महित्रेति महीत्वा यस्य समुद्रम् समुद्रगुं रसयाः रसया सः सहाहुः आहुरित्याहुः यस्येमाः इमाः प्रदिशः प्रदिशो यस्य प्रदिश प्रादिशः यस्य बाहू बाहु बाहू इति बाहू कस्मै देवाय देवाय हविषा हविषा विधेम विधेमेति विधेम यङ्क्रन्दसी अवसा क्रन्दसि इति क्रन्दसी अवसा तस्थभाने अभ्यैक्षेताम् तस्तभाने इति तस्तभाने अभ्यैक्षेताम् मनसा अभ्यैक्षेतामित्यभि ऐक्षेताम् मनसा रेजमाने रेजमाने इति रेजमाने यत्राधि अधिसूरः सूर उदितौ उदितौ येति उदितावित्युदौ येति कस्मै येतीतिभि येति कस्मै देवाय देवाय हविषाः हविषा विधेम विधेमेति विधेम येनौः द्यौरुग्रा उग्रापृथिवी पृथिवी च दृढे दृढेयेन दृढे इति दृढे येन सुवः सुवस्तभितम् स्तभितम् येन येन नाकः नाक इति नाकः योगमन्तरिक्षे अन्तरिक्षे रजसः रजसो विमानः विमानः कस्मै विमान इति विमानः कस्मै देवाय देवाय हविषाः विधेम विधेमेति विधेम आपोह हयत् हा, यन्महतीः महती विश्वमायुन् आयुन्दक्षम् दक्षम् दधानाः दधाना जनयन्तीः जनयन्तीरग्निम् अग्निमित्यग्निम् ततो देवानाम् देवानाम्निः निरवर्तत अवर्ततासु असुरेकः एकः कस्मैः कस्मै देवाय देवाय हविषाः हविषा विधेम विधेमेति चिदापः आपो महिना महिना पर्यपश्यत् पर्यपश्यद्दक्षम् पर्यपश्यदिति पर्यपश्यद् लक्षन्तधानाः दधाना जनयन्तीः जनयन्तीरग्निम् अग्निमित्यग्निम् यो देवेषु देवेष्वधि अधिदेवः देव एकः एकासीत् आसीत्कस्मै अस्मै देवाय देवाय हविषाः हविषा विधेम धेमेति विधेम अग्निम् प्रयुजम् प्रयुजग्गस्वाः प्रयुजमितिप्रायुजम् साहा मनः मनोमेधाम् मेधामग्निम् अग्निम् प्रयुजम् प्रयुजग्गस्वाः प्रयुजमितिप्रायजम् साः चित्तम् चित्तम् विज्ञातम् विज्ञातमग्निम् विज्ञातमितिवे ज्ञातम् अग्निम् प्रयुजम् साहा वाचः वाचो विधृतिम् विधृतिमग्निम् विधृतिमिति विधतिम् अग्निम् प्रयुजम् प्रयुजग्रस्वाहा प्रयुजमिति प्रायुजम् स्वाहा प्रजापतये प्रजापतये मनवे प्रजापतये प्रजापतये मनवे स्वाहा स्वाहाग्नये अग्नये वैश्वाधराय वैश्वाधराय स्वाहा स्वाहा विश्वे विश्वे देवस्य नेतुः नेतुर्मर्तः मर्तो वृणीत वृणीतसख्यम् सख्यम् विश्वे विश्वेराजः राजैषुध्यसि विशुध्यसि द्युम्नम् द्युम्नम् वृणीत वृणीतपुष्यसे पुष्यसे स्वाहा स्वाहा मासु सुभित्थाः भित्था मासु सुरिषः ऋषो दृगुहस्व तृगुह्मस्व वीडयस्व वीडयस्वसु स्वेजेषु अम्बधृष्णो वीरयस्वाग्निः अग्निश्च चेदम् इदम् करिष्यथः करिष्यथ इति करिष्यथः ब्रह्मस्वदेवि देवि पृथिवी पृथिवी स्वस्थये आसुरी आसुरी माया माया स्वधया स्वधया कृता स्वधयेति स्वाधया कृतासि असीत्यसि दृष्टम् देवानाम् देवानामिदम् इदमस्तु अस्तु हव्यम् हव्यमरिष्ठा अरिष्ठा त्वम् त्वमुत् इह यज्ञे यज्ञे अस्मिन् अस्मिन्नित्यस्मिन् मित्रैताम् एतामुखाम् मुखान्तप तवैषा एषा मा मा भेदि भेदीति भेदि एतान्ते ते परि परिददामि ददान्यभित्यै अभित्यादित्यभित्यै ध्रवन्म सर्पिरासुतिः ध्रुवन्म इति ध्रुवन्नः सर्पिरासुतिः प्रत्नः सर्पिरासुतिरिति सर्पिः आसुतिः रत्नो होताः होता वरेण्यः वरेरण्य वरेण्यः सहस्रस्पुत्रः पुत्रो अद्भुतः अद्भुत इत्यद्भुतः परस्य अधिसंवतः संवतोऽपरान् संवत इति साम्वतः अपरागुम् अभि अभ्या आतर तरेति तर यत्राहम् अहमस्मि अस्मितान् रागुम् अव अवेत्यव रमस्याः परावतः परावतो रोहितश्वः परावत इति परावतः रोहितश्व इह रोहितश्व इति रोहितश्वः इहा आगहि गहिति गहि प्रेष्यः पुरप्रियः पुरप्रियोग्नेः पुरप्रिय इति पुरप्रियः अग्ने त्वम् सुन्दर तरामृधः वृध इति मृधः सीदत्वम् त्वम् मातुः मातुरस्याः अस्या उपस्थेः उपस्थे विश्वानि उपस्थैत्युपास्थेः विश्वान्यग्ने अग्ने व्यजुनानि व्यजुनानि विद्वान् विद्वानिति विद्वान् एनाम् एनामर्चिषाः अर्चिषा मा मा तपसा तपसाभि अभिशोषितः शोषितोऽन्तः अन्तरस्याम् तस्याम् शुक्रज्योतिः शुक्रज्योतिर्भिः शुक्रज्योतिरिति शुक्राज्योतिः विभाहि भाहीति भाहि अन्तरग्ने अग्ने रुचा रुचा त्वम् त्वमुखायैः मुखायै सदने सदने स्वे स्व इति हरसातपन्ने सा, तपञ्जातवेदः जातवेदः शिवः जातवेद भवेति भव शिवो भूत्वा भूत्वा मह्यम् मह्यमग्ने अग्नेथोः अथो अथो इत्यथोः सीदशिवः शिवस्त्वम् त्वमिति त्वम् शिवाः कृत्वा कृत्वा दिशः दिशः सर्वाः सर्वाः स्वाम् स्वाम् योनिम् योनिमिह इहा आसदः असद इत्यसदः यदग्ने अग्नेयानि यानि कानि कानि च चा, चा आतेः दारूणि दध्वसि तध्वसीति दध्वसि तदस्तु अस्तदुभ्यम् तोभ्यमित् निर्घृतम् घृतम् तत् तज्जृषस्व कृषस्वयविष्ठ्या यविष्ठ्येति यविष्ठ्या यदति अत्युपजिह्विका उपजिह्विका यत् उपजिह्विकेत्युपजिह्विका यद्वम्रः वम्रो अतिसर्पति अतिसर्पतीत्यतिसर्पति सर्वम् तत् तदस्तु अस्तुते त्वे घृतम् घृतम् तत् तज्जुषस्व ऋषस्वयविष्ठ्या रात्रिकम् रात्रिमप्रयावम् रात्रिकम् रात्रिमिति रात्रिम् रात्रिम। अप्रयावम् भरन्तः अप्रयावमित्यप्रयावम् भरन्तोऽश्वाय अश्वायेव इव तिष्ठते तिष्ठते घासम् घासमस्मै अस्मादित्यस्मै राजस्पोषेण पोषेण सम् समिषा इषामदन्तः अग्नेमा मातेः ते प्रतिवेशाः प्रतिवेशादिषाम प्रतिवेशादि प्रतिवेशाः रिषामेति रिषाम नाभा पृथिव्याः पृथिव्याः समिधानम् समिधानमग्निम् समिधानमिति संविधानम् अग्निगुम् रायः रायस्पोषाय पोषाय बृहदे बृहदे हवामहे हवामः इति हवामहे इरम् मदम् बृहदुःखम् इरम् मदमितीरम् मदम् बृहदुःखम् यजत्रम् बृहदुःखमिति बृहद् दुःखम् यजत्रम् जेतारम् येतारमग्निम् सासहिमिति सासहिम् याः सेनाः सेना, सेना अभीत्वरीः अभीत्परीराव्याधिनीः अभीत्वरीरित्यभिःपरीः आव्याधिनीरुगणाः आव्याधिनीरित्या व्याधिनीः उगणा उद उदेत्युत ये स्तेनाः सेना ये ये च चतस्कराः तस्करास्तान् तागुस्तेः हे अग्नेः अग्नेऽपि आस्य इत्यास्येः दगृष्ट्राभ्याम् मलिंलोन् मलिम्लोन् जम्भैः जम्भ्यैस्तस्करान् तस्करागुम् उत उतेत्युत हनोऽभ्यागस्तेनान् हनोभ्यामिति हनोभ्याम् स्तेनान्भगवः भगवस्तान् भगवैर्भगवः तागस्त्वम् त्वम् खाद खादसुखादितान् सुखादितानिति सुखादितान् ये जनेषु जनेषु मलिम्लवः मलिम्लवस्तेना सेनासस्तस्कराः तस्करावनेः वन इति वनेः ये कक्षेषु कक्षेष्वघायवः अघायवस्तान् अघायवैत्यघायवः कागस्तेः ते दधामि यो अस्मभ्यम् अस्मभ्यमरातीयात् अस्मभ्यमित्यस्माभ्यम् अरातीयाद्यः यश्च शनः नोद्वेषते द्वेषते जनः जनैति निन्दाद्यः यो अस्मान् अस्मान्दीप्सात् दिप्साच्च च सर्वम् सर्वम् तम् तम् मस्मसा कुर्विति कुरु सगुंसितम् मे मे ब्रह्म ब्रह्म सगुंषितम् सगुंसितम् वीर्यम् सगुंसितमिति बलम् बलमिति बलम् सगुंसितम् क्षत्रम् सगुंसितमिति संशितम् क्षत्रम् यस्याहम् अहमस्मि अस्मि पुरोहितः पुरोहित इति पुरहाहितः तेषाम् बाहू बाहू अतिरम् बाहू इति बाहू अतिरौत् उद्वर्चः वर्चरुत् उदू ऊबलम् बलमिति बलम् क्षिणामि ब्रह्मणा ब्रह्मणामित्रान् अन्वित्रान् उम् नयामि नयामि स्वामि स्वागुम् अहम् अहमित्यहम् दशानो रुक्मः रुक्मगुर्व्या उर्व्याभि द्यद्यौ अद्यौ दुर्मर्षम् दुर्मर्षमायोः दुर्मर्षमिति दुहोमर्षम् आयुःश्रिये श्रिये रुचानः रुचान इति रुचानः अग्निरमृतः अमृतो अभवत् अभवद्वयोभिः पयोभिर्यद् वयोभिरिति वयहाभिः यदेनम् हेनौः द्यौरजनयद् अजनयत् सुरेताः सुरेता इति प्रतिमुञ्चते मञ्चते कविः कविः प्रासावीत् असावीत् भद्रम् भद्रम् द्विपदेः द्विपदे चतुष्पदे द्विपद इति द्विपदेः चतुष्पद इति चतुःपदेः विनाकम् नाकमख्यत् अख्यत्सविता सवितावरेण्यः वरेण्यो नु अनुप्रयाणम् प्रयाणमुषसः विराजति राजतीति नक्तोषा सा समनसा विरूपे समनसेति सा मनसा विरूपे धापयेते धा विरूपे इति विरूपे धापयेते शिशुम् एककम् समीची समीची इति समीची द्यावा क्षाम क्षामा रुक्मः रुक्मो हन्तः अन्तर्वि विभाति देवाः देवा अर्निम् अर्निम् धारयन् धारयन् द्रविणोदाः सुपर्णोऽसि सुवर्ण इति सुपर्णः असि गरुत्मान् गरुत्मान त्रिवृत् त्रिवृत्तेः त्रिवृतित्रिवृत् ते शिरः शिरोरायत्रम् रायत्रम् चक्षुः चक्षुस्तोमः सोम आत्मा सामते ते तनोः तनोर्वामदेव्यम् वामदेव्यम् वामदेव्यमिति रामा देव्यम् प्रहद्रसन्तरे पक्षौ इति बृहदे कथन्तरे पक्षौ यज्ञायज्ञयम् वृक्षम् पृच्छम् छन्दागुंसि छन्दाकस्यङ्गानि अङ्गानिधिष्ण्यः धिष्ण्याः शभाः शभायजोगुंषि यजोगुंषि नाम नामेति नाम सुपर्णोऽसि सुपर्ण इति सुपर्णः असि गरुत्मान् गरुत्मान्वम् दिवम् गच्छ गच्छ सुवः सुवः पत पतेति अग्नेयम् इज्ञम् यज्ञमध्वरम् अध्वरम् विश्वतः विश्वतः परिभूः परिभूरसि परिभूरिति परिभूः असीत्यसि स इति देवेषु देवेषु गच्छति गच्छतीति गच्छति सोमयाः यास्ते ये मयोभुवः अयोभुव ऊतयः अजोभुव इति मयः भुवः ऊतयः सन्ति सन्ति धाशुषेः दाशुष अविता भव भवेति भव अग्निर्मूर्धा मूर्धा भुवः भुवः तन्नः असोम सोमया याते रे धामानि धामानीति तत्सवितुः सवितुरेण्यम् वरेण्यम् भर्गः भर्गो देवस्य देवस्य धीमहि धीमैर धीमहि धीयोः योगः पुनः प्रचोदयात् प्रचोदयादिति प्राचोदयात् अचित्येयत् यच्चक्रमा चक्रमादैव्ये दैव्ये जने जने दक्षैः प्रभूति प्रभूती पूरुषत्वता प्रभूतीति प्राभूती पुरुषप्रदेति पुरुषात्प्रदाः लेलेषु च सुसवितः सुवितर्मानुषेषु मानुषेषु च चत्वम् त्वन्नः नो अत्र अत्र सुमतात् सुवतादनागसः अनागस इत्यनागसः चोदयित्ली सोतानाम् सोदृतानाम् चेतन्ती चेदन्ती सुमतीनाम् सुमतीनामिति सुमतीनाम् निर्गन्दधे सरस्वती सरस्वतीति सरस्वती पावीरवीकन्याः कन्या चित्रायुः चित्रायः सरस्वती चित्रायुरिति चित्रा वीरपत्नी वीरपत्नीभियम् वीरपत्नीति वीरापत्नीः धियन्धात् धादिति धात् ग्राभिरच्छिद्रम् अच्छिद्रकम् शरणम् शरणम् सजोषाः सजोषा दुराधर्षम् सजोषा इति सा जोषाः राधर्षम् गणते अन्वेतु हेतुनः न पूषा पूषारक्षतु रक्षत्वर्वतः पर्वत इत्यर्वतः पूषावाचम् वाचकम् सनोतु सनोतु नः नैत शुक्रन्तेः ते अन्यत् अन्यद्व्यजतम् यजन्तेः ते अन्यत् अन्यद्विषुरूपे विशुरूपे अहनी विशुरूपे इति विशुरूपे अहनी द्यौः अहनी इत्यहनी द्यौरिव विश्वाहि हि मायाः माया अवसि सुधावो भद्रा सुधाव इति सुधावः भद्रादे ते पूषन् पूषन्निह इहरातिः आदिरस्तु स्वतवसः स्वतवसो महित्वना स्वतवस इति स्वादवसः महित्वनानाकम् महित्वना आनाकम् आकन्तस्थुः तस्थुरु कुरुचक्रिरे चक्रिरे सदः सद इति सदः विष्णुर्यत् यद्ध आवत् आवद्वृषणम् वृषणम् मदच्युतम् मदच्युतम् वयः मदच्छ्युतमिति मदाच्युतम् वयो न सीदन् सीदन्नधि अधिबर्हिषि बर्हिषि प्रिय इति प्रियेचित्रम् चित्रमर्कम् अर्कम् गृणते गृणते तुराय तुरायमावृताय मारुताय स्वतवसे स्वतवसे भरध्वम् सुतवस इति स्वातपसे ये सहा गुंसि सहसा सहसा सहन्ते सहन्ते रेजते रेदते अग्ने अग्ने पृथिवी पृथिवी मठेभ्यः मठेभ्येति मठेभ्यः विश्वे देवाः देवा विश्वेः देवा विश्वे देवाः देवा इति देवाः द्यावानः नः पृथिवी इमम् थी पृथिवी वेशु। इति पृथिवी हिमम् सिद्धम् सिद्धमद्य अद्यदिविःस्पृशम्पृशमितिविस्पृशम् यज्ञम् देवेषु देवेषु यच्छताम् यच्छतामिति यच्छताम् प्रपूर्वजे पूर्वजे पितराः पूर्वजे इति पूर्वजे पितरा नव्यसीभिः नव्यसीभिर्गीर्भिः गीर्भिः कृणुध्वम् कृणुध्वकम् सदने सदने ऋतस्य सदने इति सदने ऋतस्येत्रतस्य आनः नोऽध्या वा पृथिवी यावापृथिवी दैवेन द्यावापृथिवी इति द्यावापृथिवी दैवेन जनेन जनेन यातम् यातम् महि महि वाम् माम् वरूथम् वरोथमिति वरोथम् अग्निग्स्तोमेन बोधय बोधे समिधानः समिधानो अमर्थ्यम् समिधान इति संविधानः देवेषु नः मो दधत् दधदिति हव्यवाड् इति हव्यवाड् अमर्त्य उषिद् उषिद्दूतः दूतश्च नोहितः च नोहित इति चनोहितः अद्यर्धिया धियासम् समृण्वति शृण्वति इति शृण्वति शृह्हः भवन्तु वाजे वाजे वाजे वाज इति वाजे चतुर्थकाण्डे प्रथमः प्रश्नः समाप्तः